अस्मिन् वर्गे प्रथमं यथा उक्तं पूर्वस्मिन् सप्ताहे अपि तु कर मम ई पत्रे अपि करपत्राणि त्रीणि आसन् भवन्तः सर्वे पठित भवत्याः सर्वे पठितवन्तः इति मन्ये तेषु सन्देहाः सन्ति प्रश्नाः सन्ति कृपया पृच्छन्तु तान् परिशील्य प्रथमम् अग्रे अद्यतनपाठस्य विवरणं कुर्म विवरणं पश्यामः सीमा भगिनी भवत्याः प्रश्नः आसीत् खलु आं भगिनि मम एकः प्रश्नः अस्ति परमाणेषु विशेष विशेषः अस्ति किन्तु तेषु सा सामान्यं नास्ति इति अवगतवती मम प्रश्नः अस्ति परमाणुत्वम् इति सामान्यम् अस्ति न वा परमाणुत्वम् इति सामान्यं वा इति प्रश्नः अतः प्रथम सर्वेषां कृते प्रथमकरपत्रात् प्रश्नः खलु इत्युक्ते सामान्यं विशेषः च इत्यस्मात् अस्तु अस्तु भगिनि सम्यक् प्रश्नः एव अस्मिन् करपत्रे किम् अस्ति पूर्वमपि दृष्टवन्तः पुस्तके अपि विशेषः इति कश्चनपदार्थः सामान्यम् इत्युक्ते जातिः इति, जाति इति उच्यते समानानाम् धर्मः सामान्यम् इति वयं जानीमः विशेषः इति वैशेषिकाः एव विशेषः इत्यस्य अन्वेषणं विशेषः इत्यस्य किम् इत्यस्य संज्ञा कृता विशेषः कुत्र कुत्र वर्तते परमाणुषु अपि तु नित्यद्रव्येषु इति कृ इति दृष्टवन्तः किमर्थं चेत् परमाणुः इति अन्तिमखण्डः अस्ति अन्तिमभागः वा अन्तिमखण्डः अस्ति पदार्थस्य खण्डः वा द्रव्यस्य खण्डः इति स्वीकुर्मः अन्तिमखण्डः अस्ति यस्य अवयवाः न सन्ति एव इतोपि न भवति एव तर्हि अवयवाः न सन्ति यथा तादृशं खण्डनं कर्तुं शक्नुमः परन्तु अन्ततो गत्वारः लभ्यते यस्मात् परम् इतोपि खण्डनं न अतः परमाणूनाम् अवेवह न सन्ति साधारणतया जातिः वा सामान्यम् इत्युक्ते किम् यत्र वयं पूर्वमपि दृष्टवन्तः येन केनचित् येन केनचित् धर्मेण पदार्थस्य अभिज्ञानं जायते यथा बालकः गां दृष्ट्वा अयं गौः इति कृतवान् परन्तु अ इति परमाणुः अस्ति च इति परमाणुः अन्यः परमाणुः अस्ति अपरमाणुः परमाणोः भिन्नः अस्ति तयोः कोऽपि साम्यम् नास्ति एव अतः एव विशेषः क्षमता भगिनि भवत्याः भवत्याः शब्दः सम्यक्तया श्रूयते एवं वा मध्ये मध्ये भटितः वा सर्वेषाम् अनुभवः वा श्रूयते श्रूयते न मह्यं सम्यक् श्रूयते भगिनि भगिनि कुत्र नष्टः जातः इति वदतु पुनः अहं रटामि पूर्वं वाक्यं पुनः वदतु भगिनि विशेषः विषये अस्तु इति स्वीकरोतु अपरमाणुः च परमाणोः भिन्नः अस्ति सर्वदा एकः परमाणुः भिन्नः एव यतो हि परमाणुः अन्तिमखण्डः अस्ति तर्हि भिन्नता अस्ति चेत् तयोः भिन्नता अस्ति चेत् कश्चन पदार्थः विद्यते अपरमाणु अपरमाणौ अपि च परमाणौ कश्चन पदार्थः वर्तते येन भिन्नता भवति स पदार्थः एव विशेषः इति उच्यते अस्तु तर्हि अपरमाणौ विशेषः च परमाणौ अपि विशेषः परन्तु अत्र विशेषः इति नास्ति अत्र यूनिफार्मिटि नास्ति यथा जातिविषये अस्ति अतः परमाणुत्वम् इति जातिः एव न वर्तते अत्र गोत्वं गो okay. वा uh. वा कपालिकात्वं वा पदार्थानाम् द्रव्याणाम् बा, बाहुल्यम् वा गुणानाम् बाहुल्यम् येन तेषाम् सङ्ग्रहः एकस्मिन् जात्याम् भवति किं बहवः सन्ति खलु बहूनि पुस्तकानि सन्ति तेषाम् सङ्ग्रहः एकस्मिन् वर्गे वा एकस्मिन् जात् जात्याम् भवितुम् अर्हति एतत् पुस्तकं तदपि पुस्तकं तदपि पुस्तकं, पुस्तकं। बहूनि पुस्तकानि सन्ति एतेषाम् सङ्ग्रहः किमर्थम् संग्रह इत्युक्ते तेषाम् एकरूपता वा एकाकारप्रतीतिः भवति कश्चन साम्यम् अस्ति कश्चन साम्यम् अस्ति येन तेषाम् सङ्ग्रहः एकस्मिन् जात्याम् भवितुम् अर्हति परन्तु परमाणुविषये तादृशम् न अतः एव परमाणुत्वम् इति जातिः न वर्तते आ, किन्तु एकः एक साम्यः अस्ति भगिनि न ते, ते सर्वे परमवः चरमं खण्ड चरमः खण्ड चरमाः खण्डाः सन्ति इति कृत्वा वा चरमाः खण्डाः इति कृत्वा तेषां जातिः इति भवती वदति वा तर्हि चरमाः खण्डाः अस्तु एकनिमिषं जातिः द्रव्यम् अवलम्ब्य वा गुणम् अवलम्ब्य वा कर्म अवलम्ब्य भवति खलु तत्तु भवती जानाति सामान्यं कुत्र कुत्र वर्तते द्रव्येषु गुणेषु अपि च कर्मसु खलु अपि च कर्मसु तर्हि चरमः खण्डः इति कस्मिन् वर्गे भवति परमाणुः परमाण परमाणूनां चरमखण्डद्रव्ये भवति इति मन्ये न न चर्मखण्डः इति द्रव्यं वा इति प्रश्नः आम् अहं चरमखण्डः द्रव्यम् एव <coughs> तर्हि चर्मखण्डस्य चर्मखण्डस्य द्रव्यम् इत्युक्ते यस्मिन् गुणः भवति खलु परमाणुषु गुणः न भवति इत्युक्ते पृथिव्यां गन्धः अस्ति अन्तिम पुस्तकस्य अन्तिमभागे गन्धः अस्ति वा इति प्रश्ने कृते तादृशं न भवति तर्हि गन्धः कदा आगच्छति गन्धः भिन्नभिन्न भिन्नाः मतानि सन्ति अस्मिन् विषये <coughs> कोऽपि वदन्ति यत् प्रथमे खण्डे एव भवति इति चर्म ये परमाणुषु भवति इति अन्य कोऽपि सिद्धान्ताः सिद्धान्तिनः वदन्ति यत् द्वयणुकं भवति तदा एव गुणः भवति इति अस्मिन् स्तरे अवयवाः अवयवः अवयवा अवयवात्मकद्रव्यं भवति तदा एव गुणः अपि भवति इति ते वदन्ति तर्हि द्रव्यस्य द्रव्याणां परमाणवः तेषाम् इन्क्लूषन् कस्मिन् कस्मिन् पदार्थे कर्तव्यम् परमाणुः इति नित्यम् परन्तु द्वयनुकम् अस्ति चेत् गन्धा अस्ति इति न द्वयनुकात् आरभ्य द्रव्यम् इति वक्तुं शक्नुमः परन्तु परमाणुस्तरे तादृशः गुणः भवति इति वक्तुं न शक्नुमः अस्तु भगिनि इदानीम् अस्मिन् वर्गे इतोपि अधिकं अनन्तरम् इता अनन्तरं पर परमाणुविषये वयं पठिष्यामः Mm -hmm. तदा स्पष्ट स्पष्टः भवति इति मन्ये okay. इतोपि विस्तरेण पठामः परन्तु एतावत्पर्यन्तं पर्याप्तं यत् परमाणुत्वम् इति जातिः न भवति um, परमाणुषु परमाणुषु साम्यं नास्ति इति इति विषयः अस्तु hmm? uh -huh, uh -huh. भगिनि अन्यः प्रश्नः अपि सन्ति किन्तु ah. ओके प्रष्टुं शक्नोमि यदि अग्रे गन्तुम् इच्छति चेत् तत् तत् मम कृते सम्यक् अस्ति पश्चात् कर्तुमपि शक्नुमः न नृच्छतु भगिनि ओके ओके इतोपि निमिषद्वयम् अस्ति तदनन्तरं ओके ओके ओके वायौ अथवा गुणस्य Um, खण्डनं कर्तुं न शक्नुमः आं तर्हि तेषां विशेषः कथं भवति तेषु विशेषः यथा जलस्य खण्डनं कर्तुं um, शक्नुमः किन्तु oh. oh. <laughs> सः प्रश्नः uh, यस्य दर्शनं यत् रूपरहि रूपरहितपदार्थानां खण्डनं कथं भवति इति भवत्याः प्रश्नः खलु यतो हि वायुः रूपरहितः अस्ति hmm. न जानामि भगिनि प्रश्नस्य उत्तरं न जानामि परन्तु अहं पृष्ट्वा वदामि hmm? अस्तु धन्यवादः भगिनि खण्डनं तु अस्ति वयं न दृष्टवन्तः भगिनी आं सम्यक् एव सम्यक् एव भवत्याः उत्तरमपि इत्युक्ते खण्डनम् अस्माकं सौकर्याय एव इत्युक्ते लाघवार्थम् अवगमनार्थं खण् परमाणुः इत्युक्ते किम् इत्यस्य अवगमनार्थं खण्डनम् इति इति क्रिया दृष्ट् इति क्रिया जाता परन्तु साधारणतया खण्डनम् कृत्वा एव वायौ परमाणुः अस्ति इति स्थितिः न mm -hmm. सर्वेषु परमानव, सन्ति खलु mm -hmm. केवलम् नित्यद्रव्याणाम् परमाणवः न सन्ति <clears throat> यतोहि आकाशः तु एकः एव तस्य अवयवाः न एतत्सर्वम् नैयायिकाः बहु किम् ध्याने उपविश्य तेषाम् अन्वेषणम् कृत्वा ते लिखितवन्तः uh -huh. परन्तु अध्यतन अद्यतनवैज्ञानिकानाम् रीतिः तु भिन्ना अस्ति खलु uh -huh. हा परन्तु वाय, वायु वायुः विषये कथम् कुर्मः वा परमाणवः कथम् सन्ति इति वयं वक्तुं शक्नुमः एतत् सर्वं किं नाट् बेस्ड् आन् एक्स्पेरिमेण्ट्स् इति अहं मन्ये भगिनि वायवस्य खण्डनं कर्तुं शक्यते वा प्रथमता हा तदेव उक्तं भगिनी. खण्डनं कृत्वा एव परमाणुः अस्ति इति इति स्थितिः नवलम् अस्मा अस्माभिः द्रष्टुं न शक्यते तदेव परन्तु वायुः इत्युक्ते किं अपानवायुः प्राणवायुः इति इति सर्वे सन्ति खलु भिन्नेषु oh. um, वायुषु um, पार्टिकल्स् इति सन्ति खलु okay. अवश्यं त्रयणुक चतुरनुकं त्रयणुकं द्वयणुकम् इति सर्वे सन्ति एव तेषु अपि oh. यतोहि yeah. वायुः वायोः स्पर्शः जातः खलु अस्मा अस्माभिः त्वचा तेष तस्य स्पर्शः जातः hmm. स्पष्टुं um. शक्नुमः um. तर्हि स्पष्टुं स्प्रष्टुं शक्नुमः चेत् तस्मिन् कश्चन किं पार्टिकल् सन्ति इति oh. निष् निष्कर्षः okay. भवति खलु कदाचित् स्पर्शः भवति कदाचित् स्थगितः जातः तर्हि तेषु कानिचन कानिचन वस्तूनि वा पार्टिकल्स् इत्युक्ते किं भागाः सन्तिपि पृथक्करणं भवति इति स्थितिः अस्तु We are uh, uh, assessing this in the chemical way. परन्तु अनुभवरीत्या अनुभवः इत्युक्ते ध्याने यः कोऽपि अनुभवः भवति तदा प्रायः भिन्नः भिन्नं ज्ञानं जायते इति मन्ये सर्वेषु विषयेषु तादृशमेव विज्ञानरीत्या एकः अनुभवः परन्तु ध्याने अनुभवः जातः यत् जातं तत् भिन्नं भवति खलु ऋषिभिः जायते तत् सर्वदा भिन्नम् अस्ति अस्माकमपि नूतनं ज्ञानम् इति भासते Hmm. Hmm. विज्ञानात् भिन् भिन्नं भवति प्रायः तादृशः भवति इति मन्ये एतद्रीत्या चिन्तनं भवितव्यं खलु भवत्याः शृणुयुः इति मन्ये परन्तु बुद्धः गौतमबुद्धः इति आसीत् खलु यदा um. सः ध्याने आसीत् भोधवृक्षस्य अधः ध्याने उपविष्टः जातः तदा प्रत्येकस्मिन् जन्मनि uh, सः कः आसीत् इति अनुभवः जातः uh. तस्य कृते अन्ततो गत्वा सः किम् हु इस् अन् सेल्ड् क्रीचर् इति अनुभवः जातः तस्य तस्य कृते तत्सर्वं किमर्थं भवति इत्युक्ते कथम् उत्तरं न लब्धुं शक्यते खलु अस्तु अन्यप्रश्नः अस्ति वा नो चेत् अग्रे सरी अन्यः एकः प्रश्नः विशेषस्य कृते दृष्टवन्तः नित्य द्रव्येषु विशेषः अस्ति किन्तु एकः घटः अन्यस्मात् घटात् अपि भिन्नः अस्ति तस्य भेदः अव्यय अव्ययाधारेण क्रियते अस्माभिः तर्हि तर ते तेषु अवयवेषु विशेषः स्वीक्रियते न वा न अवयवस्तरे कदापि न परन्तु परमाणुषुस्तरे विशेषः भवति इति वक्तुं शक्य शक्यते अवश्यम् अवश्यमेव सर्वदा न ्यावर्तकत्वं स्वतव्यावर्तकत्वम् इति पठित पठितवन्तः खलु तदेव अस्ति हेतुः भिन्नतायाः हेतुः भवति प्रत्येकस्मिन् परमाणुषु परमाणौ अस्तु सर्वे पठितवन्तः करपत्राणि तर्हि अग्रे सरेण वा धन्यवादः न चिन्ता मास्तु यदा कदापि प्रश्नः उदेति कृपया पृच्छतु वा परपत्राणि विषये अपि अस्तु तर्हि शतसप्ताहे किं कुर्वन्तः कोऽपि प्रतिध्वनिः भवति कुर्वन्तु कृपया अस्तु गतसप्ताहस्य सारांशः आसीत् यत् अवच्छेद्य अवच्छेदकः भावः इत्यस्मिन् विषये अभावस्य चर्चा जायमाना अस्ति इदानीम् अभावस्य चत्वारः प्रभेदाः सन्ति अत्यन्ताभावः अन्यतमः अस्ति तेषु अत्यन्ताभावः त्रिप्रकारकः स च अभावः तद्यथा Uh, सामान्यभावस्य प्रतियोगी सामान्यजलम् इति वयं दृष्टवन्तः अभावस्य प्रतियोगी इति उच्यते साधारणतया यतोहि प्रतियोगि एव विरोदि प्रतियोगिनी विरोदभावः अस्तु विशिष्टेन पदार्थेन एव अभावः निवार्यते चेत् कृष्णाजलम् विशिष्टतया विशेषजलेन एव अभावः निवार्यते।, निवार्यते तद्यता स्वातिनक्षत्रीयवृष्टिजलेन शुप्तिका मृत्तिकांशविशेषाभावस्य प्रतियोगी स्वातिनक्षत्रीयवृष्टिजलम् प्रत्येकस्मिन् जले प्रतियोगिता अस्ति प्रति, सामान्यभावस्थले सामान्याभावं प्रतियोगिता विशेषाभावस्थले तर्हि एताः प्रतियोगिताः सर्वाः समानाः वा नो चेत् कथम् भिद्यन्ते इति प्रश्नः अत्रैव अवच्छेद्य अवच्छेदकभावः प्रयोजकः भवति अस्माकं लौकिक उदाहरणम् किम् आसीत् अवच्छेद्यम् वा अवच्छेदकम् इत्युक्ते किम् इति वयं दृष्टवन्तः द्रोणपञ्चकपरिमितम् पात्रे क्षीरम् अस्ति द्रोणदशकपरिमितम् पात्रे अपि क्षीरम् तर्हि क्षीरयोः भेदः कथं संस्थाप्यते कथम् बिद्य, भिद्येते आश्रयस्य आधारेण अत्र आश्रयः कः पात्रमेव तर्हि एकम् पंचका, पंचका, पात्रम। अन्यद्रोणदश एतम् उदाहरणम् स्वीकृत्य प्रतियोगिता अपि आश्रयभेदा भिद्यते इति वक्तुम् शक्नुमः किम् इति प्रश्नः अस्माकम् उदाहरणे उदाहरणे पात्रस्य आधारेण वा आश्रयस्य आधारेण क्षीरम् भिद्येते इति वयम् वक्तुम् शक्नुमः तर्हि अस्मिन् उदाहरणे अस्माकम् अवच्छेदकम् भवति पात्रम् अवच्छेद्यम् अस्ति क्षीरम् केवलम् अवच्छेदकं किम् अवच्छेद्यं किम् इत्यस्य विवरणार्थमेव एतत् उदाहरणम् अपि तु आश्रयेण भेदः संस्थापयितुं शक्नुमः इति प्रदर्शनार्थम् अस्माकम् उदाहरणे इत्युक्ते सामान्यजलं वृष्टिजलं वा स्वातिनक्षत्रीयवृष्टिजलम् प्रतियोगिता प्रतियोगिता प्रतियोगिता आशृत्य आशृत्य आशृत्य यथा पात्रम् इति वा इति प्रश्नः अस्माकम् अद्यतनपाठः अयमेव आश्रयः एव अवच्छेदकः वा यथा पात्रम् इति एतावत्पर्यन्तं स्पष्टं वा सर्वे अवगन्तुं शक्नुमः शक्नुवन्ति वा सारांशः उत्तम बहु समीचीनम् इदानीम् इतोपि एकम् अधिक उदाहरणमहं ददामि बालकः अस्ति एकः बालकः एव स च बालकः अन्येभ्यः कथं भिद्यते इति अहं पृच्छामि चेत् उत्तरं किं भवति भिन्नानि उत्तराणि भवन्ति खलु इत्युक्ते अयं बालकः अन्याः बालकाः न इति वयं वक्तुं शक्नुमः अतः बालकः भिद्यते इति अन्यकोऽपि वदति बालकः तु मनुष्यः अस्ति अन्याः पुस्तकानि वा वा कूप्यः वा यत्किमपि भिन्नभिन् भिन्न भिन, भिन आधारेन बालकः भिद्यते अन्येभ्यः इति वक्तुम् शक्नुमः इत्युक्ते इत्य अवलम्ब्य बालकः भिद्यते इति वक्तुं शक्नुमः इत्युक्ते अस्मिन् उदाहरणे धर्मः अवचे अवच्छेदकः भवति इति पृष्ठभूमित्वेन अहं वदामि अग्रे पठेम इतोपि स्पष्टतः भवति अस्तु पृष्ठसङ्ख्या अस्ति ट्वेण्टि टु अस्तु सीमा भगिनी पठ पत, पठति वा इदानीम् इदानी इदानी okay, okay. इदानी शास्त्रे एतादृशावच्छेद्यावच्छेदकभावस्य किम् प्रयोजनम् इति पश्यामः अभावानाम् सामान्यभावः विशेषाभावः विशेषविशेषाभावः विशेश इत्येवम् विभागः अनुपदम् एव अस्माभिः चिन्तिततः जलसामान्याभावस्य प्रतियोगिता सर्वस्मिन् जले वृष्टिभावस्य वृष्टिजले स्वातिनक्ष् स्वातिनक्षत्रेयवृष्टिजलाभावस्य च प्रतियोगिता स्वातिनक्षत्रियवृष्टिजले इति अत्र स्थितम् अस्ति भेदः जलाभावनिष्ठानयोगितानिरूपितप्रतियोगिता जलनिष्ठा अन्या वृष्टिजलाभावनिष्ठानियोगिता निरूपितप्रतियोगिता वृष्टिजलानिष्ठा ततो भिन्ना एवं तृतीये अपि परन्तु सः भेदः कथं ज्ञायते <coughs> इदानीम् अवच्छेदक अवच्छेद्यभावस्य प्रयोजनं किम इति पश्यामः अभावानाम् अभावः त्रिविधः अस्ति सामान्यभावः विशेषाभावः विशेषविशेषाभावः hmm. uh, तेषु प्रतियो uh, uh, सामान्य प्रत्येकस्मिन् अभावे प्रत्येकस्मिन् अभावे निरूपणवाक्यं किम् अस्ति <laughs> प्रत्येकस्मिन् अभावस्य निरूपणवाक्यमस्ति इत्युक्ते सामान्य अभावः इति चिन्तयतु तत्र सामान्यजलम् इति जलस्तनिष्ठप्रतियोगिता <laughs> निरूपित अनुयोगिताश्रयः सामान्यभावः समीचीनम् इदानीं प्रतियो प्रतियोगिता कीदृशा कीदृशी इति वदतु भगिनी प्रत्येकस्मिन् अस्तु जलसामान्य अभावस्य निष्ठ अनुयोगिता निरूपित जलत्वनिष्ठ प्रतियोगिता समीचीनम् एवमेव विशेषभावनिष्ठ अनुयोगितानिरूपित वृष्टिजलत्वनिरुजलनिष्ठ वृष्टिजलनिष्ठके वृ वृष्टिजलनिष्ठ प्रतियोगिता समीचीनम् एवं विशेषविशेषभाव निष्ठ अनुयोगिता निरूपित स्वाति स्वातिनक्षत्रियखलु स्वातिनक्षत्रियवृष्टिजल निष्ठप्रतियोगिता समीचीनं तर्हि तर्हि ते तासां प्रतियोगितानां um, भेदः अस्ति ते uh, ताः सर्वाः भिन्नः कथम् इति वयम् अग्रे पश्यामः समीचीनं समीचीनं भगिनि इदानीं स्पष्टं वा प्रश्नः अस्ति वा एतावत्पर्यन्तम् केवलं प्रतियोगितायाः निरूपणमेव खलु प्रत्येकस्मिन् प्रत्येकस्याम् अवस्थायाम् मत्स्य मत्स्य जलाभावः पुनः चातकपक्षिणः जलाभावः वृष्टिजलाभावः जला अनन्तरम् शुक्तिकायाः स्वातिनक्षत्रियवृष्टिजलस्य जलाभावः जला एतत् सर्वं वयं निरूपणवाक्यैः दृष्टवन्तः अस्तु अग्रे पुष्पा भगिनी भगिनि यद्यपि यद्यपि स्वातिनक्षत्रीय वृष्टिजलाभावस्य प्रतियोगिता स्वातिनक्षत्रीयवृष्टिजले एव न अन्यस्मिन् जले वृष्टिजलाभावस्य प्रतियोगिता वृष्टिजले एव न अन्यस्मिन् जले इति प्रत्ययोगितयोः आश्रयौ उभयत्र भिन्नौ अतः आश्रयभेदा भेदात् प्रतियोगिताभेदः ज्ञातुं शक्यः वदतु भगिनी कृपया अत्र स्वातिनक्षत्रीयवृष्टिजल अभावः अभावस्य प्रत्योगिता स्वातिनक्षत्र नक्षत्रीयवृष्टिजले एव तिष्ठति को, अन्य कोऽपि नस्ति वृष्टिजलाभावस्य प्रतियोगिता ना, वृष्टिजले एव न <coughs> तु कोऽपि को अन्य कोऽपि जले नास्ति ना प्रतियोगिताश्रय <coughs> आश्रयः तत्र एव तत्तु स्वातिनक्षत्रीयवृष्टिजलाभावःभावस्य प्रतियोगिता स्वातिनक्षत्रीयवृष्टिजलेजलाभावस्य प्रतियोगिता वृष्टिजले एव अतः ते तयोः आश्रयौ भिन्नभिन्नभिन्न आश्रयौ अस्ति इत्युक्ते प्रथमे आश्रयः अस्ति प्रथमस्य आश्रयः कः वृष्टिजलम् इति आश्रयः खलु वृष्टिजलम् एव वृष्टिजलाभावस्य प्रतियोगिता तर्हि एका प्रतियोगिता अपरस्मात् अपरायाः भिन्ना वा भिन्ना वा कथं कथं वक्तुं शक्नुमः तत्तु वृष्टिजलजले एव वृष्टिजलाभावस्य प्रतियोगिता न हा समीचीनम् अतः आश्रयः भिन्नः खलु आश्रयः भिन्नः तेन आधारेण प्रतियोगिता अपि भिन्ना इति वक्तुं शक्नुमः प्रतियोगिते भिन्ने इति वक्तुं शक्नुमः खलु अस्तु समीचीनम् अग्रे प्रिया भगिनी अतः आं भगिनि अतः आश्रयभेदा अस्तु आम् वदतु वदतु अतः आश्रयभेदात् प्रतियोगिताभेद भेदः ज्ञातुं शक्यः तथापि जलम् नास्ति इति सामान्य अभावस्य प्रतियोगिता यथा कूपजले वर्तते तथा वृष्टिजलेऽपि वर्तते स्वातिनक्षत्रीयवृष्टिजलेपि वर्तते इति प्रतियोगितायाः आश्रयाः सर्वाणि जलानि भवन्ति अतः आश्रयभेदेन प्रतियोगिताभेदं न साधयितुं प्रभावम प्रभवामः प्रभावा, विचारम् एनं चित्ररूपेण पश्य आं um, चित्रं दृष्ट्वा वदतु भगिनि प्रथमे प्रथमे कोष्टके किम् अस्ति स्वातीनक्षत्रीयवृष्टिजलाभावः mm. अनु, अनुयोगिता एकनिमिषम् आश्रयः कः आश्रयस्य निरूपणम् कथम् इति पृच्छामि चेत् उत्तरं किम् आश्रयः अत्र इत्युक्ते प्रतियोगितायाः आश्रयं निरूपयतु इति अहं वदामि अहं पृच्छामि अत्र आश्रयः स्वातिनक्षत्रियवृष्टिजलमस्ति समीचीनम् अतः कृपया स्वातिनक्षत्रीयवृष्टिजलाभावः भावनिष्ठ अनुयोगिता निरूपिता स्वा प्रतियोगाश्रय आश्रयः स्वातिनक्षत्रीयवृष्टि खलु आम् अस्तु द्वितीये चित्रे वृष्टिजलाभावनिष्ट अनुयोगिता निरूपित प्रतियोगिताश्रयः वृष्टिजले वृष्टिजलं वृष्टिजलं तस्मिन् वृष्टिजले स्वातिनक्षत्रीयवृष्टिजलम् अन्तर्भूतं वा uh, किं चिन्तयति भगिनि वृष्टिजलमाश्रयः इति भवती उक्तवती खलु आम् तर्हि वृष्टिजले स्वातिनक्षत्रीयवृष्टिजलम् अपि अन्तर्भूतं वा एतत्तु सामान्यवृष्टिजले अस्ति तत्र विशेषतया स्वातिनक्षत्रीयवृष्टिजले अस्ति किञ्चित् भेदः अस्ति इत्युक्ते भेदः किम् इत्युक्ते स्वातिनक्षत्रियवृष्टि वृष्टिजलम् अपि भवितुम् अर्हति परन्तु स्वातिनक्षत्रियवृष्टिजलम् एव इति न स्थितिः खलु आम् आम् अस्तु तृतीये चित्रे सामान्या भावनिष्ठ अनुयोगिता निरूपित प्रतियोगिताश्रयः <coughs> सामान्यं जलं खलु अस्तु अग्रे पश्येमीचीनम् अत्र अस्मिन् परिचये किं वा अत्र किं कः किम् किम, उक्तः अस्ति चेत् ृतीये चित्रे यथा प्रथमे वा द्वितीये चित्रे आश्रयभेदेन प्रतियोगिता भिद्यते प्रतियोगिते भिद्येते इति वक्तुम् शक्नुमः तथैव तृतीये चित्रे सामान्यम् जलम् सामान्यजलम् इति आश्रयः खलु परन्तु सामान्यजले सर्वाणि जलानि अन्तर्भूतानि यत्किमपि जलं भवतु वयं दृष्टवन्तः मत्स्य तृष्णा परिपूरयति खलु यत्किमपि जलमानयतु कूपीजलं वा वृष्टिजलं वा स्वातिनक्षत्रीयवृष्टिजलमपि आनयतु तदा मत्स्यः जीवितः भवति खलु तर्हि यदा अहम् स्वातिनक्षत्रीयवृष्टिजलम् आनयामि तदा कीदृशी प्रतियोगिता भवति मत्स्य मत्स्य पार्श्वे स्वातिनक्षत्रियवृष्टिजलम् आनयामि तदा कीदृशी प्रतियोगिता भवति Hmm? जलस्य अभावः एव निवार्यते समीचीनमेव परन्तु यदा स्वातिनक्षत्रीयवृष्टिजलं भवति तदा hmm? स्वा, स्वातिनक्षत्रीयवृष्टिजलाभाववृष्टिजलम् hmm. आश्रय भवति hmm. खलु खलु hmm. तर्हि तादृश आश्रयस्य प्रतियोगिता भिन्ना भवति वा इति प्रश्नः इत्युक्ते um. अस्माकं प्रथमे चित्रे अपि स्वातिनक्षत्रियवृष्टिजलस्य जले प्रतियोगिता खलु um. अस्माकं मत्स्य उदाहरणे अपि स्वातिनक्षत्रियवृष्टिजलस्य प्रतियोगिता भवितुम् अर्हति यदा स्वातिनक्षत्रीयवृष्टिजलम् चेत् खलु कथम् विद्येते um, um, um, um. इति प्रश्नः सम्यक् स्पष्टो जातः वा प्रश्नः um, जलम् um. साम, जलसामान्यमेव मत्स्य मत्स्य विषये परन्तु um. यत्किमपि जलम् भवितुमर्हति खलु तत्र कोऽपि विशिष्ट विशिष्ट विशिष्टजलस्य आवश्यकता नास्ति मत्स्य अस्तु तथापि अहं वृष्टिजलमपि आनेतुं शक्नोमि आनेतुं शक्नोमि खलु आम् आम् तदा आश्रयः समानमेव भाति खलु तत्र सामान्य अभावः <laughs> नास्ति वृष्टिजलस्य अभावः भवति इत्युक्ते तादृश अभावः न भिद्यते परन्तु चातकविषये तर्हि प्रतियोगितायाः भेदः कथम् संस्थाप्यते इति प्रश्नः अस्तु आश्रयभेदेन न वक्तुं शक्नुमः यता पात्रे पात्रस्य विषये क्षीरस्य विषये खलु अस्तु तर्हि समाधानं किम् इति सीमा भगिनी कृपया अग्रे पठामि अथवा वदामि न न पठतु भगिनि स्पष्टं खलु समाधानं पश्यामः इह अस्याः प्रतियोगितायाः आश्रयः न भिद्यते किन्तु सर्वाणि जलानि इति आश्रयभेदात् इयं अन्ययोः प्रतियोगितयोः भिन्ना अन्या इति न ज्ञायते अतः तासां भेदसाधनाय अवच्छेदकस्यापेक्षा वर्तते अग्रे पठामि भगिनि uh, एतत् परिच्छेदं uh, uh, विवृणोतु भगिनि तदनन्तरं पठतु कृपया अस्तु अस्तु दृष्टवन्तः प्रतियोगिता uh. आश्रयभेदेन ज्ञातुं न mm. शक्नुमः यतो हि केचन प्रतियोगिताः प्रतियोगितायाः आश्रयाः अधिकः अथवा सामान्यः सन्ति यथा स्वातिनक्षत्रियवृक्ष mm. यथा जल जलसामान्याभावस्य प्रतियोगिता स्वातिनक्षत्रियवृष्टिजले अस्ति एवं जलविशिष्टाभावः अपि स्वातिनक्षत्रियवृष्टिजले अस्ति अतः तासां भेदसाधनाय अवच्छेदकस्य अपेक्षा भवति समीचीनम् अग्रे पठतु ओके अत्र इदं ज्ञेयम् प्रतिगिनी यशेषण प्रतिगिन उल्लेख ये धर्मेण क्रीय इति तयोगिता अवच्छेदक यहाल नले चयिनी सी जल्व्रव्य सताय सत्ता धर्मा परन्तु अभावकथनाय जलं नास्ति इत्येवम् उक्तमिति जलत्वेनैव जलस्य उल्लेखः कृतः अतः तत् प्रतियोगिता अवच्छेदकम् प्रति प्रतियोगितायाः Mm. विशेषः यत् अस्ति तेषाम् उल्लेखः येन रूपेण धर्मेण क्रियते तद् एव प्रतियोगितायाः अवच्छेदकम् अस्ति mm. इत्युक्ते किञ्चित् संशोधनमेव तत्र विशेषणं कस्य विशेषणम् इत्युक्ते प्रतियोगिनी यत् विशेषणम् प्रतियोगिनी इत्युक्ते किं विभक्तिः का प्रतियोगिनी इत्यस्य विभक्तिः का एकनिमिषम् प्रतियोगी अस्ति का विभक्तिः कथमा वदति या वत् सप्तमी खलु क्षम्यता मास्तु प्रतियोगि इति प्रथमा प्रतियोगिनी इति सप्तमी तर्हि प्रतियोगिनी इत्युक्ते जले यत् विशेषणम् अस्ति विशेषणम् इत्युक्ते कर्शनविशेषता अस्ति खलु तस्मिन् सामान्यजले कर्षनविशेषता वृष्टिजले अपि विशेषता अस्ति स्वातिनक्षत्रियवृष्टिजले कश्चन काचित् विशेषता अस्ति काचित् इति क्षम्यताम् अस्तु तर्हि प्रतियोगिनी यत् विशेषणं प्रतियोगिनः उल्लेखः येन रूपेण धर्मे अग्रे वद वदतु भगिनि यद्विशेषणं प्रतियोगिनी मध्ये अस्ति येन रूपेण प्रतियोगिनानाम् उल्लेखः भवति mm. येन धर्मेण mm. तेषाम् उल्लेखः भवति ते सर्वे प्रतियोगितायाः अवच्छेदकाः सन्ति इत्युक्ते अस्माकम् उदाहरणे वदतु भगिनि जले जलत्वम् अस्ति जलत्वम् इति धर्मः खलु सामान्यजले सामान्यजले केवलं जलत्वं इति धर्मः तदेव प्रतियोगितायाः अवचेदकं भवति वृष्टिजले वृष्टि वृष्टिजलविशेषणमस्ति आम् वृष्टिजलत्वं खलु इति तद् धर्मः भव भावत, धर्मः भवति अथवा विशेषणं भवति तत् न जाने विशे, विशे, विशेषं धर्मः एव विशेष विश् विश् धर्मेण एव विशिष्यते खलु अस्तु अस्तु ते सर्वे समानार्थिनः विशेषणं रूपं धर्मं समानार्थिनः सन्ति अत्र के विशेषणं रूपं धर्मम् अथवा भिन्नं भिन्नं न विशेषणम् इत्युक्ते येन विशिष्यते खलु आम् अत्र धर्मः एव धर्मस्य आधारेण विशिष्यते एतत् विशिष्यते इति वक्तुं शक्नुमः अस्तु अस्तु अस्तु वृष्टिजलत्वम् अवच्छेदकम् अस्ति एवम् स्वातिनक्षत्रियवृष्टिजलत्वम् <coughs> uh, अन्यत् अवच्छेदकम् अस्ति समीचीनं hmm. uh, जले um, यदी जलं नास्ति चेत् जलाभावः अस्ति इति वक्तुं शक्नुमः uh, किन्तु जले uh, um, बहवः धर्माः सन्ति यथा जलत्व द्रव्यत्व सत्ता इत्यादयः mm, mm, mm. कथनाय जलं नास्ति इत्येवम् उक्तम् इति जलत्वेन एव जलस्य उल्लेखः कृतः mm. द्रव्यत्वेन वा आ, सत्तया न किमर्थम् जलस्य अस्माकम् उद्देशः अस्ति जलं नास्ति द्रव्यत्ववदने द्रव्यं नास्ति इति भवति सत्तया वदने काचित् सत्ता नास्ति इति तात्पर्यः भवेत् इत्युक्ते अस्माकम् उदाहरणे अभावस्य निवारणं कथं जायते जलस्य आनयनेन एव न तु पुस्तकस्य आनयनेन वा यत्किमपि द्रव्यस्य आनयनेन खलु सत्यम् अतः जलस्य विषयः एव तर्हि जलत्वेन एव प्रतियोगिता भिद्यते यतोहि एतत् अस्माकं मत्स्य उदाहरणे सर्वं जलं यत्किमपि जलं भवतु सर्वं जलम् तृष्णां निवारयति अतः जले यत् विशे जले यत् विशेषता अस्ति या विशेषता अस्ति का, का, का विशेषता सा जलत्वम् इति जलत्वम् इति धर्मः तेन एवस्य निवारणं भवितुम् अर्हति अतः um, स धर्मः एव um, जलाभावस्य प्रतियोगिता न प्रत प्रतियोगी भवितुम् अर्हति hmm? समीचीनम् भवितुमपि भवति भवति खलु भवति भवति तर्हि तदेव सामान्य सामान्यम् सामान्यजलमेव अवच्छेदकं प्रतियोगितायाः अस्तु समीचीनम् अग्री तर्हि चित्रस्य निरूपणं किञ्चित् करोतु भगिनी तत्र अधोभागे यत् अस्ति न न जले किम् अस्ति जले जलत्वम् अस्ति जले प्रतियोगिता अपि अस्ति अपि अस्ति तर्हि अग्रे पुष्प भगिनी कृपया अग्रे पठतु धन्यवादः भगिनि पुष्प भगिनि अस्मि भगिनि हा तथा च यस्याः प्रतियोगितायाः बे, अपेक्षितं तस्याः यत् अधिकरणं जलं तत्र स्थित्वा इदं जलत्वम् इयं प्रत्योगिता अन्यप्रतियोगिताभ्यः अन्या भिन्ना इति बोधयति mm. mm, अत्र प्रतियोगितायाः अवां वेदज्ञानम् अपेक्षितं चेत् तत्र प्रतियोगितायाः अधिकरणं जलं तत्र स्थित्वा तत् तत् जलत्वं जलत्वम् इदं जलत्वं प्रतियोगिता इति अन्यप्रतियोगिताभ्यः ते स अन्यप्रतियोगिताभ्यः हा हा तत् जलं विहाय अन्यप्रतियोगिताभ्यः अन्या अन्या भिन्ना इति बोधयति जलं विहायति न अस्माकम् तृतीये चित्रे hmm. प्रतियोगितायाः आश्रयः सर्वम् जलम् जलम. खलु असामान्यम् जलम, जलम् इति hmm. तर्हि तस्मिन् विद्यमानम् जलत्वम् एव प्रतियोगिता प्रतियोगिताम् अवच्छेदयति अवच्छेदयति अतः एव प्रतियोगितायाः अवच्छेदकम् भवति जलत्वम् इति hmm. hmm. hmm. तस्मिन् विद्यमानम् जलत्वम् एव प्रतियोगितायाः संस्थापयति अन्यप्रतियोगिताभ्यः भेदम् संस्थाप्यति संस्थापयति इत्युक्ते इत्युक्ते वयं um. दृष्टवन्तः स्वातिनक्षत्रीयवृष्टिजले अपि प्रतियोगिता अस्ति uh -huh. अत्र तस्मिन् अपि खलु परन्तु प्रतियोगिते कथं भिद्येते इत्युक्ते चित्रे तु प्रतियोगिता uh -huh. जलत्वेन भिद्यते शुद्धजलत्वेन वा सामान्यजलत्वेन भिद्यते परन्तु अस्माकं प्रथमे चित्रे प्रतियोगिता स्वातिनक्षत्रीयवृष्टिजलत्वेन भिद्यते नहीं। नहीं। अग्रे पठतु भगिनी कृपया तत्र द्वितीयं चित्रं तृतीयचित्रम् अग्रिमे पुटे तत् वर्णयित्वा वदतु कृते वृष्टिजलं नास्ति इति अभावस्य अपि किम् वृष्टिजलं uh, नास्ति इति वृष्टिजलजलम् अभावः अस्ति चेत् वृष्टिजलत्वस्य अभावः अस्ति वृष्टिजल अस्माकं uh किम् -huh. अस्माकं लक्ष्यं किम् अत्र अवच्छेदकं किम् इति खलु अतः सम्पूर्णं वाक्यं किमस्ति एवं वृष्टिजलं नास्ति इति अभावस्यापि किम् वृष्टिजलं वृष्टिजलत्वम् इदं दृष्टिजलत्वम् इयं प्रतियोगिता इति वक्तुं शक् शक्नुमः समीचीनमेव वृष्टिजलत्वम् ृष्टिजलत्वम् इयं प्रतियोगिता अन्यप्रतियोगिताभ्यः अन्या भिन्ना इति बोधयति तदेव खलु अस्तु अस्तु अग्रे तृतीयं चित्रं तृतीयचित्रम् एवं स्वातिनक्षत्रीयवृष्टिजलं नास्ति इति अभावस्थले अपि सूचयति स्वातिनक्षत्रीयवृष्टिजलं स्वातिनक्षत्रीयवृष्टिजलत्वम् इदम् इदं स्वातिनक्षत्रीयवृष्टिजलं जलं जलत्वम् इयं प्रतियोगिता इति अन्य प्रतियोगिताभ्यःभ्यः अन्या भिन्ना इति बोधयति बहु समीचीनं भगिनी तर्हि अवच्छेदकं किं प्रत्येकस्मिन् सन्दर्भे अवच्छेदकं किम् अवच्छेदकं तु अवच्छेदकं किम् अवच्छेद्यं किम् अवच्छेदकं तु स्वातीनक्षत्रीय उष्टिजलत्वम् अवच्छेदं अवच्छेदकम् अवच्छेदकं तृतीये सन्दर्भे द्वितीये अस्तु तर्हि अवच्छेद्यं किम् अवच्छेद्यं तु अवच्छेद्यं तुत्रियवृष्टिजलम् अवच्छेद्यम् mm -hmm. अवच्छेद्य अवच्छेदकम् इत्युक्ते यत् अवच्छेदयति खलु uh -huh. अवच्छेद्यम् इत्युक्ते किम् अवच्छेद्या इत्युक्ते किं तु खलु अवच्छेद्यते अवच्छिद्यते अस्तु तर्हि वृष्टिजल उदाहरणे किम् अवच्छेदकं किम् अवच्छेद्यं वृष्टिजलत्वं अवच्छेद्य प्रतियोगिता अवच्छेद्या समीचीनम् प्रथमे उदाहरणे प्रथमे उदाहरणे जलत्वं अवचेद्य अवच्छेद्यकं चेदकं प्रतियोगिता अवच्छेद्या बहु समीचीनम् अत्र यद्यपि जलसामान्य अभावस्य प्रतियोगिता कूपजले इव स्वातिनक्षत्रीयवृष्टिजले अपि वर्थते अतः आश्रय तथापि सामान्य अभावस्य प्रतियोगितायाः अवचेदकं शुद्धं जलत्वं वृष्टिजलाभावस्य प्रतियोगितायाः अवचेदकं वृष्टिजलत्वं स्वातिनक्षत्रीयवृष्टिजलाभावस्य प्रतियोगितायाः अवच्छेदकं स्वातिनक्षत्रीयवृष्टि जलत्वम् इति अवचेत् अवच्छेदकभेदात् सिद्धः प्रतियोगिता भेदः अत्रैव mm. अत्रैवम् um, Atraiva. अवच्छे अवच्छेद्य अवच्छेदक अभावः अवच्छेदकभावः भावः अवच्छेदकभावः अस्तु अत्रैव अवचेद्य अवचेदकभावः अग्रे अपि पठतु भगिनी कृपया यतोहि चित्रस्य निरूपणं भवती करोतु सर्वत्र सर्वत्र चित्रेषु ऊर्ध्वगामिनी शरे इति अधोगामिनी शरे आश्रय इति तिरश्चीने निरूपितन्यायभाषया व्यवहर्तव्यम् hmm. अस्तु इदानीं वदतु hmm. भगिनि ऊर्ध्वभागं निष्ठम् अस्ति निष्ठा अधोभागे आश्रयः hmm. सर्वं जानन्ति एव इदानीं चित्रस्य करोतु तदा भवती तु जानाति एव अत्र चित्रं चित्रं पश्यतु किल इदानीं जलत्वम् इति वदतु कृपया जले जलत्वम् अस्ति खलु आं जले जलत्वम् अस्ति जल जल निष्ठ जलत्वनिष्ठ अवच्छेदकता निरूपित अवच्छेद्यताश्रयः प्रतियोगिता तत्र किञ्चित् योजयतु अवचेद्यता <laughs> किम् अस्ति जलनिष्ठप्रतियोगिता खलु जलत्वनिष्ट अवच्छेदकथा निरूपित अवच्छेद्यथा प्रतियोगिता कुत्र अस्ति कुत्र निष्ठा अस्ति जले खलु अतः अवच्छेद्यता आश्रयः जलनिष्ठप्रतियोगिता इत्येव अग्रे अग्नि केवलं प्रथ भागद्वयम् इति चिन्तयतु प्रथमे भागे केवलं जलम् जले जलत्वं जले प्रतियोगिता तस्य निरूपणम् अस्तु इदानीमेव भवत्या कृता इदानीं द्वितीयं भागमपि योजयतु इत्युक्ते प्रतियोगिता अनियोगिता ससम्बन्धिकौ खलु mm -mm. प्रतियोगिता चेत् अवश्यम अनियोगिता किम् इति वयं ज्ञातुं शक्नुमः तत्रापि तत्र, oh. तत्र निरूप्यनिरूपकभावः अस्ति खलु oh, तदपि ओजेतु oh. कृपया um, पुनः प्रतियोगिता प्रतियोगितातः um, वदतु um, um, कृपया जलनिष्ठप्रतियोगिता mm. निरूपिता अनुयोगिताश्रयः जल अभावः समीचीनम् uh. इदानीं सर्वं योजयित्वा वदतु भगिनी मिलित्वा जलत्वनिष्ठा अवच्छेदकता निरूपित अवच्छेद्यताश्रयः जलनिष् प्रतियोगिता mm. निरूपिता mm. अनुयोगिताश्रयः जलम् अनुयोगिताश्रयः किं जलाभावः सोरि क्षम्यताम् <laughs> <laughs> समीचीनं <laughs> बृहान् प्रयत्नः <है> खलु <laughs> न <ना> भगिनी <laughs> बहु सरलमेव <सारणां> अस्ति <laughs> अस्तु किमर्थम् वाक्यम् अवगच्छति चेत् द्वितीयवाक्यं न अवगच्छति न परन्तु अत्र किं कुत्र सन्देहः इति वदतु अवच्छेदकता ah, अवच्छेद्यता तयोः मध्ये निरूप्यनिरूपकभावः खलु आम् आम् इदानीं नास्ति पठनसमये प्रथमवाक्यम् अवगच्छति द्वितीयवाक्यं न अवगच्छति तृतीयवाक्यम् अवगच्छति uh, uh, uh, uh, <laughs> <laughs> <laughs> <laughs> कनेक्षन् किञ्चित् विलम्बेन आगच्छति केवलं तत्र नास्ति सरलमेव केवलं कुत्र किम् निष्ठा अस्ति इति विषयः mm. okay. उपरि अस्ति चेत् यावत् तावत् प्राप, प्राप्यते चेत् अवश्यं निरूपित इति पदम् भवति uh -oh. अनन्तरं प्रतियोगितापर्यन्तम् प्राप्यते चेत् पुनः निरूपिता एव भवति खलु yeah. oh, यतोहि oh. तत्र प्रश्चीनशरः अस्ति अस्तु तर्हि कोऽपि अभावात् आरभ्य निरूपयति वा जलाभावनष्ट अनुयोगिता निरूपिता जलाश्रयः प्रतियोगिता पुनः प्रतियोगिता प्रतियोगितायां किम् अस्ति जलम् अस्ति जल जलत्वं प्रतियोगितायां किम् अस्ति अवचेद्यथा अस्ति तर्हि उपरि गमनेन किम् निष्ट पुनः खलु आम् आम् जलनिष्ठप्रतियोगिता निष्ठेद्यता ओ जलनिष्ठ प्रतियोगिता अवचेद्यता निरूपित अवचेदकथा श्रयः जलत्वं समीचीनं तावदेव अस्तु भगिनि एवं च जलत्वनि समीचीनम् एवं च एवं च जलनिष्ठ अवच्छेदकतानिरूपितनिष्ठ एवं च जलत्वनिष्ठ अवच्छेदकतानिरूपित अवच्छेद्यताश्रय जलनिष्ठप्रतियोगितानिरूपित अनुयोगिताश्रयः अनुयोगिताश्रयः अभावः इति विवरणं भवति भवती अवगच्छति खलु अस्तु अग्रे इदमभावात् प्रभृति अपि वक्तुं शक्नुमः इत्युक्ते एकनिमिषं भगिनि सामान्य अभावः सामान्यजलाभावः कीदृशः इति प्रश्ने कृते एतत् सर्वम् इत्युक्ते भगिनि इदम् अभावात् प्रभृति अपि वक्तुं शक्नुमः अभावनिष्ठ अनुयोगितानिरूपितजलनिष्ठप्रतियोगितानिष्ठ अवच्छेद्यतानिरूपित अवच्छेदकताश्रयः जलत्वम् अस्तु इदानीं जलत्वस्य निरूपणमस्ति mm. तत् अभावनिष्ठ अनुयोगिता निरूपित mm. जलनिष्ठप्रतियोगितानिष्ठ अवच्छेद्यता निरूपित अवच्छेदकताश्रयः अस्ति तत् चित्रेण सरलतया अवग अवगन्तुं शक्नुमः किन्तु एवमेव वाक्येन अवगमनं क्लिष्टम् अस्ति इति मम मनसि वाक्येन इत्युक्ते वाक्येन एवम् अभावनिष्ठ अनुयोगिता निरूपितजलनिष्ठ प्रतियोगितानिष्ठ अवच्छेद्यता निरूपित अवच्छेदका जलत्वं तत् यदि वाक्यं चित्रं विहाय अस्ति किमर्थं चित्रं विहाय चित्रं चित्रं कृपया रचयतु चित्रं दृष्ट्वा एव वदतु आम् आम् आम् चित्रं दृष्ट्वा वक्तुं ओके तर्हि चित्रं विवृणोमि द्वितीयं चित्रम् इदानीम् अग्रे अस्ति खलु वृष्टिजलत्वं निष्ठ अवच्छेदकता निरुष्टिजलत्वनिष्ठ क्षमतां वृष्टिजलत्वनिष्ठ अवच्छेदकता निरूपितनिरूपिता अवच्छेद्यताश्रयः वृष्टिजलनिष्ठप्रतियोगितानिरूपिता अनुयोगिताश्रयः अभावः तत् अभावस्य विवरणम् वृष्टिजलत्वस्य विवरणम् अभावनिश्च अनियोगिता निरूपिता वृष्टिजलनिष्ठप्रतियोगिता निश्च अवच्छेद्यता निरूपित अवच्छेदकता श्रयः वृष्टिजलत्वं बहु समीचीनमेव okay. अग्रे पठामि अग्रे एवं okay. द्वितीये वृष्टिजलत्वनिष्ठ अवच्छेदकतानिरूपित अवच्छेद्यताश्रय वृष्टिजलनिष्ठप्रतियोगितानिरूपित अनुयोगिताश्रयः अभावः तद् hmm. उक्तम् hmm. एवम् अभावनिष्ठेत्यादि चिन्तनीयम् तदपि उक्तम् भवत्या तदपि hmm. एवम् एवं भावस्थले अपि वक्तव्यम् भगिनी कथं प्रयत्नं करोति वा भवती उक्तवती आम् अत्र स्वातिज नक्षत्रीय वृष्टिजलनि जलत्व निष्ठेदकतान् निरूपित अवच्छेद्यतात्रीयवृष्टिजलनिष्ठप्रतियोगिता अनियोगिताश्रयः स्वातिनक्षत्रवृ नक्षत्रीयवृष्टिजल अभावः समीचीनं बहु समीचीनं भगिनी इदानीं क्रियाभगिनी प्रयत्नं करोति वा एकस् एकेन प्राणेन अभावात् आरभ्य स्वातिनक्षत्रस्य <laughs> <laughs> वा श्वासः एकः एव भवेत् इति किं चित्रं भगिनी स्वातिनक्षत्रे <laughs> <आ>, अभावात् आरभ्य <laughs> स्वातिनक्षत्रियवृष्टिजलाभावनिष्ठ इति आरभ्य अस्तु स्वातिनक्षत्रीय वृष्टि जल अभाव जलाभाव जलाभावः निष्ठभावनिष्ठ तत्र भावः इति न भवति खलु स्वातिनक्षत्रीय वृष्टिजलाभावनिष्ठ अनुयोगिता निरूपित क्षत्रीय वृष्टि जलं जलनिष्ट प्रतियोगितानिष्ट अवचेद्यथा निरूपित अवचेदकथाश्रय न श्रुतम् अन्तिमं पदं न श्रुतं किम् अभवत् हरि ओम् प्रियभगिनी अस्ति वा गच्छतु गच्छतु भगिनी अस्तु अस्ति अस्ति परन्तु न श्रूयते एव ओ किमपि अभवन् अस्तु तर्हि स्पष्टं खलु तत्र अत्र च अभ्यासा अभ्यासाय पटसामान्य्याभावः नीलपटाभावः च ग्राह्यम् तत्र अवच्छेद्याव छेदकभावः निरूप्यनिरूपकभावः प्रतियोग्य अनियोगभावः च आलोचनीयः hmm. किं किञ्चित् संक्षिप्तरूपेण वदति वा किं भवति इति अस्मिन् उदाहरणे पठासामान्यभावः निष्ट अनिष्टा निर् निरूपिता न निरूपि पठसामान्य न पठसामान्य <laughs> <laughs> भवती अनुयोगितापर्यन्तम् आगतवती अनुयोगिता चेत् तत्र निरूपण निरूप्यनिरूपकभावः अस्ति <laughs> खलु किं निरूपयति <laughs> अनुयोगिता अनुयोगिता प्रतियोगितां निरूपयति खलु प्रतियोगिता निरूपयति प्रतियोगिता कुत्र निष्ठा अस्ति प्रतियोगिता प्रतियोगिता पठनिश्च खलु च कुत्र निष्ठा अस्ति प्रतियोगिता इत्युक्ते प्रतियोगितायाः आदेयः कः निरूप्यता न न अवच्छेद्यता खलु अवच्छेद्य साता निरूपिता अवच्छेदकता आश्रयः पटत्वं समीचीनम् बहु समीचीनम् अस्तु प्रिया भगिनी अस्ति वा दृश्यते परन्तु न वदति अस्तु अस्तु तर्हि कृपया गृहपाठाय Uh, um, चित्रं रचयन्तु uh, पटसामान्याभावस्य निरूपणम् अपि तु नीलपटाभावस्य निरूपणम् mm. mm. um, अग्रिमे वर्गे वयं पश्यामः द्रक्ष्यामः um. चित्राणि अस्तु yeah. तर्हि स्पष्टः जातः वा विषयः सन् सन्देहः नास्ति इति मन्ये अवच्छेदक अवच्छेद्यभावः कथं निरूप्यते इति केन निरूप्यते अव किम् अवच्छेदकं भवति किं तत्तु भगिनी नीलपटपटाभावनिष्ट अनियोगिता अनि अनियोगिता निरूपित नीलपट निष्ठिता छेद्य प्रतियोगिताश्रयः अवच्छेद्य प्रतियोगितानिष्ठ अवच्छेद्यता निरूपित अवच्छेदकता नीलपटत्वम् अवच्छेदकता एकं पदम् अपेक्षित अवच्छेदकता निश् खलु पटत्वं समीचीनं प्रिया भगिनी कुत्र गच्छति क्षम्यतां भगिनि अत्र एवं वा ओ ओ विद्युत् अस्तु तर्हि अस्माकं अन्यत् उदाहरणम् अपि आसीत् भावः अपि तु नीलपटाभावः तयोः निरूपणम् अपि गृहपाठाय भवेत् चित्रं रचयित्वा पटाभावः कथं निरूप्यते भवती प्रयत्नं करोति वा <laughs> <laughs> अग्रिमे पुटे क्षम्यताम् अग्रिमे पुटे वाक्यद्वयम् अस्ति पेज् ट्वेण्टि सिक्स् इति यज्ञदत्तः <laughs> <laughs> <laughs> अस्ति खलु न कुत्र अस्ति परन्तु उपरि अस्ति खलु वाक्यं आ, अत्र च अभ्यासाय पटसामान्याभावः नीलपटाभावः च ग्राह्यः तत्र अवचेद्यावचेदकभावः निरूप्यनिरूपकभावः प्रतियो प्रतियोग्यनुयोगिभावः च आलोचनीयः ्यमस्ति वा एतत् हा गृहगृहपाठः सरलमेव भवती पूर्वस्मिन् पुटे विद्यमान विद्यमानेन चित्रेण सहायेन चित्र विद्यमानस्य चित्रस्य सहायेन एतचित्रमपि रचयतु स्पष्टः वा अस्तु तर्हि